थैकपञ्चाशः सर्गः इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम् अब्रवीर्ताम् महाभागाम् तापसीम् धर्मचारिणीम् इदम् प्रविष्टाः सहसा बिलन्तिमिरसंवृतम् क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश्च सर्वशः महद्धरण्या विवरम् प्रविष्टास्मपिपासिताः इमाम् स्त्वेवम्विधान् भावान् विविधानद्भुतोपमान् दृष्ट्वा वयम् प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः शुचीन्यभ्यवहाराणि मूलानि च फलानि च काञ्चनानि विमानानि राजतानि गृहाणि च तपनीयगवाक्षाणि मणिजालावृतानि च पुष्पिताः फलवन्तश्च पुण्याः सुरभिगम्भयः इमे जाम्बूनदमयाः पादपाः कस्य तेजसा काञ्चनानि च पद्मानि जातानि विमले जले कथम् मत्स्याश्च सौवर्णा दृश्यन्ते सह गच्छपैः आत्मनस्त्वनुभावाद्वा कस्य वैतत्तपो बलम् अजानताम् नः सर्वेषाम् एवमुक्ता हनुमता तापसी धर्मचारिणी प्रत्युवाच हनूमन्तम् सर्वभूतहितेरता। रता मयो नाम महातेजा मायावीवाणरर्षभा तेनेदम् निर्मितम् सर्वम् मायया काञ्चनम् वनम् पुरा दानवमुख्यानाम् विश्वकर्मा बभूवः येनेदम् काञ्चनम् दिव्यम् भवनोत्तमम् स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने पितामहाद्वरम् लेभे सर्वमौशलसम् धनम् विधाय सर्वम् बलवान् सर्वकामेश्वरस्तदा उवाससुखितः कालम् कञ्चिदस्मिन् महावने तमप्सरसि सक्तं सक्तम् दानवपुङ्गवम् विक्रम्यैवाशनिम् गृह्य जघानेशः पुरन्दरः इदम् च ब्रह्मणा दत्तम् हेमायैव नमुत्तमम् शाश्वतः कामभोगश्च गृहम् चेदम् हिरण्मयम् दुहितामेरुसावर्णेरहम् तस्याः स्वयम् प्रभा इदम् रक्षामि भवनम् हेमायावानरोत्तम मम प्रियसखी हेमा नृत्तगीतविशारदा तया दत्तव रक्षामि भवनम् महत् कि्य कस्य हेतो का राणि प्रपद कथेदं वनम दुर्गम युष्मा सृचीनभ्यवहारा मूला फलाुक्ति पीवा च पानीय सर्वे वक्तर्हसी इदर्शे श्रीमद्राणे वाक आजिका इष्किंधाकाण्डे एकपञ्चाशत् सर्गः